ैकोनपञ्चाशः सर्गः ततः स कर्मणा तस्य विस्मितो भीमविक्रमः हनूमान् क्रोधताम् राक्षो रक्षोऽधिपमवैक्षत भ्राजमानम् महार्हेण काञ्चनेन विराजत मुक्ता जालवृतेनाथ मुकुटेन महाद्गुतिम् वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः महार्हक्षौमसंवीतम् रक्तचन्दनरूषितम् स्वनुलिप्तम् विचित्राभिर्विविधाभिश्च भक्ति भक्तिभिः विचित्रम् दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः दीप्ततीक्ष्णमहादंष्ट्रम् प्रलम्बम् दश भेर भ्राजमानम् महौजसम् नाना व्यालसमाकीर्णैः शिखरैरिव मन्दरम् नीलाञ्जन चयप्रख्यम् हारेणो रसि राजता पूर्णचन्द्राभवक्त्रेण स बालार्कमिवाम्बुदम् बाहुभिर्बर्धकेयूरैश्चन्दनोत्तमरूषितैः भ्राजमानाङ्गदैर्भीमैः पञ्चशीर्षैरिवोरगैः महति स्फाटिके चित्रे रत्नसंयोगचित्रिते उत्तरणस्तीर्णे सूपष्ट वरासने अलंकृता ररत प्रमदा सम तजनहस्तारारा सपेतु प्रहस्तेन महापाशेन रक्षसा मंत्रिर्मंत्रिककुंभन च मंत्रि उपोपष्ट रक्षो भीश्चलर्पित कृत्स्नम् परिवृतम् लोकम् चतुर्भिरिव सागरैः मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभदर्शिभिः आश्वास्यमानम् सचिवैः सुरैरिव सुरेश्वरम् अपश्यद्राक्षसपतिम् हनूमानति तेजसम् वेष्टितम् मेरुशिखरे यदम् सतैः सम्पीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः विस्मयं परमम् गत्वा रक्षोऽधिपमवैक्षत भ्राजमाणम् ततो दृष्ट्वा हनुमान् राक्षसेश्वरम् मनसा चिन्तयामास तेजसा तस्य मोहितः अहोरूपमहो धैर्यमहो सत्त्वमहोद्युतिः अहो, अहो राक्षसराजस्य सर्वलक्षणयुक्तता यद्यधर्मो न बलवान् स्यादयम् राक्षसेश्वरः स्यादयम् स्वरलोकस्य सशक्रस्यापि रक्षिता अस्य क्रूरैर्नृशंसैश्च सर्वे बिभ्यति खल्वस्माल्लोकाः सा मरदानवाः अयम् ह्युत्सहते क्रुद्धः कर्तुमे कार्णवम् जगत् इति चिन्ताम् बहुविधामकरोन्मतिमान् कपिः इत्यादशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एको पञ्चाशत्